अश्रौ श्रीत्वम् राजधर्मान् यथा वैमनुरब्रवीत् क्रूरान्निकृति सम्पन्नान् विहितान् च मात्मकान् धातराष्ट्रान् महाराज क्षमसे किन् दुरात्मनः कर्तव्ये पुरुष व्याघ्र किमस्ये पीठ सर्पवत् बुध्या वीर्येण संयुक्त श्रुतेनाभिजनेन च तृणानामुष्टिनैकेन हिमवन्तम् च पर्वतम् छन्नमिच्छसि कौन्तेय योऽस्मान् संवर्तुमिच्छसि अज्ञातचर्यागूढेन पृथिव्याम् विश्रुतेन च दिवि वपाथ सूर्येण न शक्याचरितुम् त्वया बृहच्छाल इवा नूपे शाखापुष्पपलाशवान् हस्तीश्वेत इवा ज्ञातः कथञ्जिष्णुश्चरिष्यति इमौ च सिंह भ्रातरौ सहितौ शिशु न कुलः सह देवश्च पुण्यकीर्तिराजपुत्री द्रौपदी वीरसूर्यम् विश्रुता कथमज्ञाता कृष्णापि राजम् जानन्ति ह्याकुमारमिमाः प्रजाः नाज्ञातचर्याम् पश्यामि मेरोरिव निगूहनम् तथैव बहवोऽस्माभिः राष्ट्रेभ्योऽ विप्रवासिताः राजा नोङ्जपुत्राश्च धृतराष्ट्रमनुव्रताः न हि तेऽप्युपशाम्यन्ति